अथ त्रिपञ्चाशः सर्गः तस्य तद्वचनम् श्रुत्वा दशग्रीवो महात्मनः देशकालहितम् वाक्यम् भ्रातुरुत्तरमब्रवीत् सम्यगुक्तम् हि भवता दूतवध्या विगर्हिता तु वधायान्यः क्रियतामस्य निग्रहः कपीनाङ्किललाङ्गूलमिष्टम् भवति तदस्य दीप्यताम् शीघ्रम् तेन दग्धेन गच्छतु ततः पश्यन् त्वमुन्दीनमङ्गवैरूप्यकर्षितम् सर्वे बान्धवाः सुहृज्जनाः आज्ञापय द्राक्षसेन्द्रः पुरम् लाङ्गूलेन प्रदीप्तेन रक्षो तस्य तद्वचनम् श्रुत्वा राक्षसाः कोपकर्कषाः वेष्टन्ते तस्य लाङ्गूलम् जीर्णैः कार्पासिकैः पटैः संवेष्ट्यमाने लाङ्गूलेऽ्यवर्धतमहाकपिः शुष्कमिन्धनमासाद्यवने श्रिवहुताशनम् तैलेन परिशिच्याथ तत्रोपपादयन् लाङ्गूलेन प्रदीप्तेन राक्षसाम् स्थानताडयत् रोषामर्षपरीतात्मा बालसूर्यसमाननः स भूयः सङ्गतैः क्रूरैराक्षसैर्हरिपुङ्गवः सह स्त्री बालवृद्धाश्च जग्मुः कामम् खलु न मे शक्ता निबद्धस्यापि राक्षसाः छित्त्वा पाशान् समुत्पत्त्यहन्यामहमिमान् पुनः यदि भर्तृहितार्थाय चरम् तम् भर्तृशासनात् निवर्धनन्ते दुरात्मानो न तु मे निष्कृतिः कृता सर्वेषामेव पर्याप्तो राक्षसानामहम् युधि किन्तु रामस्य प्रीत्यर्थम् विषहिष्येऽहमीदृशम् लङ्काचारयितव्या मे पुनरेव भवेदिति रात्रौ न सुदृष्टामे सुदृष्टा मे दुर्गकर्मविधानतः अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये कामम् बध्नन्तु मे भूयः पुच्छस्योद्दीपनेन च पीडाम् कुर्वन्ति रक्षाम्सि न मेऽस्ति मनसः ततस्ते संवृताकारम् सत्त्ववन्तम् महाकपिम् परिगृह्ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् शङ्खभेरीनिनादैश्च घोषयन्तः स्वकर्मभिः राक्षसाः क्रूरकर्माणश्चारयन्ति स्म ताम् पुरीम् अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः हनूमांश्चारयामास राक्षसानाम् महापुरी अथापश्यद्विमानानि विचित्राणि महाकपिः संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान् रथ्याश्च गृहसम्बाधाः कपिः शृङ्गाटकानि च तथारथ्योपरथ्याश्च तथैव च गृहान्तरान् चत्वरेषु चतुष्केषु राजमार्गे तथैव च घोषयन्ति कपिम् सर्वे चार इत्येव स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात् तम् प्रदीपितलाङ्गूलम् हनूमन्तम् दिदृक्षवः दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः राक्षस्यस्ताविरूपाक्ष्यः संसुर्देव्यास्तदप्रियम् यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः लाङ्गूलेन प्रदीप्तेन स एष परिणीयते श्रुत्वा तद्वचनम् क्रूरमात्मापहरणोपमम् मयि देही शोकसन्तप्ता हुताशनमुपागमत् मङ्गलाभिमुखी तस्य सा महाकपे उपतस्थे विशालाक्षी प्रयताहव्यवाहनम् यद्यस्त्यपतिशुश्रूषा यद्यस्ति चरितम् तवः यदि वा त्वेकपत्नीत्वम् शीतो भवहनूमतः यदि किञ्चिदनुक्रोशस्तस्य मय्यस्तिधीमतः यदि वा भाग्यशेषो मे शीतो भवहनूमतः यदि माम् वृत्तसम्पन्नाम् तत्समागमलालसाम् स विजानाति धर्मात्मा शीतो भवहनूमतः यदि माम् तारयेदार्यः अस्मदुखाबु संी हनूमत ततस्तीक्षग्रदक्षिणशशिखो नल जज्ज्वाल मृगशावाक्षंसुभं कपे हनूमज्जनकलयु निल वबो स्वास्थ्यको दिव्यानशीतल दह्यमाने च लाङ्गूले चिन्तयामा स वानरः प्रदीप्तोऽग्ररयम् कस्मान्नमाम् दहति सर्वतः दृश्यते च महाज्वालः करोति च न मे रुजम् शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः अथवा तदिदम् व्यक्तम् यद्दृष्टम् प्लवता मया रामप्रभावादाश्चर्यम् पतौ यदि तावत् समुद्रस्य मैना कस्य च धीमतः रामार्थम् सम्भ्रमस्तादृक् किमग्निर्न करिष्यति सीतायाश्चानुशंस्येन तेजसा राघवस्य च पितुश्च मम सख्येन न माम् दहति पावकः भूयः स चिन्तयामास मुहूर्तम् कपिकुञ्जरः कथमस्मद्विधस्येह बन्धनम् राक्षसाधमैः प्रतिक्रियास्य युक्ता स्यात् पराक्रमे ततश्चित्त्वा च तान् वेगवान् वै महाकपिः उत्पपाताथ वेगेन लडाद च महाकपिः पुरद्वारम् ततः श्रीमान् शैलशृङ्गमिवोन्नतम् क्षणेन पुनरात्मवान् ह्रस्वताम् परमाम् प्राप्तो बन्धनान्यवशातयत् विमुक्तश्चाभवच्छीमान् पुनः पर्वतसन्निभः वीक्षमाणश्च ददृशे परिघम् तोरणाश्रितम् सतम् गृह्य महाबाहः कालाय स रक्षणस्तान् पुनः सर्वान् सूदयामास मारुतिः सतान्निहत्वारणचण्डविक्रमः समीक्षमाणः पुनरेवलङ्का प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशितादित्य इवार्चिमाली इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुंदरकांडेपाशर्ग